अवतारो अवतारोऽहयास्य सूक्तस्य चेथा यथम् ज्ञानविज्ञानयज्ञस्य नेताभाति सनातनः प्रणम्य हयमात्मस्थम् ज्ञानविज्ञानभास्करम् वेदोपदेशमाचार्यम् वेङ्कटेशः कविर्मुदा तत्त्वम् परम् समुद्गीतम् सन्धार्यम् तत्त्ववेत्रिभिः येनावतारसूक्तार्थभूमिका सुभभायते ज्ञानविज्ञानसृष्टिस्थितिला न्यान लयानाम् अध्यक्षः हैशिराः है वासुदेव अनिरुद्धात्मा ज्ञानविज्ञानबीजस्वाभिव्यक्तविश्वस्य स्वस्मिन्नेव स्थितिलय स्थितिलयौ अनुभव अनुभवन् अनुभवयन् अनुभावयश्च स्व आमूलाग्रद्रष्टा तत्कर्तृ त्करत्र, तत्कर्तृत्व त्रितयात्माम् तत्त्रितयम् स्वात्मन्येव जुह्वन् अव्यक्त व्यक्त अव्यक्तज्ञानात्मकयज्ञहोम अधिष्ठाता स्वकार्यस्य स्वयमेव यजमानः तिष्ठति यतः स्वनियाम्यः स्रष्ट पूर्वदक्षिणपश्चिमोत्तरवेदचतुरानः सत्त्वतमोऽनन्वित र रजसा सृष्टिम् आतन्वानः सत्त्वानुविद्धरजस्तमोऽभूतः ज्ञानविज्ञानसाम्राज्यवेदबहिष्कृतः इति कर्तव्यता विमूढः सर्वथा अन्धः तिष्ठति अयम् च सर्वकार्य अनुविद्धः वास्तविकः नियमः स्वानुविद्धत्व अननुविद्धत्व अन्वयव्यतिरेक नियतः समनियतश्च इदमवधेयम् प्रतिपदम् प्रतिकार्यम् सत्त्वतमोव्याप्य रजोमयम् स्वस्थम् चकास्ति तदव्याप्यत्वेव तदन्यथा वृत्तिता तथा हि लयः सत्त्वरजोऽनुविद्धतमोव्याप्यः रजस्तमोऽनुविद्धसत्त्वव्याप्यः स्थितिः सृष्टिः तमःसत्त्वानुविद्धरजोव्याप्य इति वृत्तम् स्वतःसिद्धम् इदम् च ज्ञानविज्ञानमयम् एवम् च सृष्टिकार्यम् रजोमात्रव्याप्यम् चेदपूर्णम् तमःसत्त्वाभिव्याप्य रजोव्याप्यम् चेदामूलाग्रम् परिपूर्णम् ततश्च एतद् अननुद्धात्मक अविच्छिन्न मूलव्यापि यतः सत्त्वम् तव तमोरजोव्याप्यम् तमोर तत्प्रतिरुणद्धि स्थितिरेव स्थितरेवासौ स्रष्टरी अभूयते तदा सम्य तमोरजसीमूल्य स्वाद आत स्वाद आतनुते एकदम स्वतः सत्व अवतरती तदा स्वाद्याप्य तमोरजसीतव स्विमुखे स्वाश्रय अव्याप्य इत्थञ्च इमं नैसर्गिकम् क्रमवृत्तम् अशिक्षयति सत्वं। इदमेव वृत्तम् ऐशिरोवतरणात्मकम् मधुकैटभनिर्मूलकम् ज्ञानविज्ञानवेदप्रकाशकम् इति तत्त्वम् इत्थञ्च इदम् च तत्त्वम् विश्वकर्मसूक्तम् हयशिर उपाख्यानम् च इति इदमत्र अवधार्यम् क्रिया सर्वत्र विक्रान्त आ तमोरजविशेषित सत्त्वम् क्रिया सदा भाति स्मनियान्यप्रवञ्चित क्रिया सत्त्वम् तमोव्याप्यम् तमोरजसि संस्थितम् ताभ्याम् अनन्वितम् सर्वम् पूर्णताम् नानुभावयेत् यथा बीजम् तमोव्याप्यम् तदव्यक्तमिति स्थितम् तद्व्यक्ती रजसा भाति तद्व्याप्यम् सत्त्वमास्थितम् यतो वृद्धिश्च सर्वत्र स्थितिव्याप्या तदा भवेत् यदा रजस्तमो व्याप्यम् सत्त्वम् यत्र प्रतिष्ठितम् प्रवृत्तिरजसा व्याप्या तदा पूर्णाभिभासते निवृत्त्यन्वितकार्यस्य रजोव्याप्तिर्यदा भवेत् निवृत्तिश्च प्रवृत्तिश्च निवृत्तिरिति भोमिका निवृत्तेश्च प्रवृत्तित्वम् निवृत्त्यन्वित एव च इदम् अव्याहतम् वृत्तम् ज्ञानविज्ञानशिक्षितम् अव्यक्ताद्व्यक्तवृत्तित्वम् तस्माद्व्यक्तवृत्तिता रजोऽव्यक्त इति ज्ञेयः तस्मात् व्यक्तिः स्थिता तस्माद्व्यक्तिः स्थितिस्थिता तमोव्यक्तत्ववृत्ति तमोव्यक्तत्ववृत्तित्वम् इति चक्रम् सनातनम् अव्यक्तम् च यदा सत्त्वम् रजोव्याक्तम् लयम् भजेत् रजस्यैव लयस्तदैव सम्प्राप्तः यदा सत्वरजोन्वितः लयेऽपि स्थितिकार्यत्वम् लजसैव प्रवर्तते समत्ववृत्त समत्वसमत्ववृत्तमानम् तु तत्र सत्त्वात् विनिश्चितम् गुणत्रयात्मकम् वृत्तम् इदम् भाति सनातनम् लयः सत्त्वरजोव्याप्यः स्थितिस्सत्वरजोन् भाति तपः इतिरे अन्वयव्यतिरेकत्वम् बीजयमानम् सनातनम् यत्र यत्र तमोरजोनुविद्धत्वम् तत्र तत्र कार्यम् यत्र न तत्र न तत् इति एवम् यत्र यत्र रजसत्वानुविद्धत्वम् तत्र रयः यत्र न तत्र न सः इति इदम् सनातनम् वृत्तम् सृष्टिस्थितनजान्वितम् व्यक्तीभवति सर्वत्र स्वाव्य स्वव्याप्याव्याप्यवृत्तितः इदम् मानम् सदा भाति मेयम् व्याप्यम् स्वरक्षितम् ज्ञानविज्ञानविक्रान्तम् स्वानिरुद्धत्वशिक्षितम् इदमिदमवधेयम् स्वानिरुद्धत्वमिति निरुद्धत्वादिरुद्धत्वे स्वतः सिद्धे विवक्ष्यते कार्यम् रुणद्धिरुद्धत्वम् तदन्यच्च प्रवर्तयेत् ज्ञानात् सृष्टिरितीर्थम् यत् तद्गुण तदृणध्ययथा यथम् तज्ज्ञानस्यापहे तज्ज्ञानस्यापहारे तु तत्कथम् सम्प्रवर्तते उदरीया वर्तता यदि स्यात् तत्प्रवर्तिर्यथा यथम् तदेव स्वाभिरुद्धत्वम् सृष्टिकार्यप्रयोजकम् तमोरजोविघातेन तन्निरोध इति स्थितिः अनिरोधस्तद्विघातेन तत्प्रवर्तकम् तत्प्रवर्तकमाहतम् इदमेवानिरुद्धत्वम् तमोरजविघातकम् आज्ञम् आविशुद्ध्यार्थम् स्थिरावृत्तानुभावुकम् अनिरुद्धत्वसम् प्राप्य सृष्टिरव्या सृष्टिरव्याहता भवेत् तद्व्याप्यव्याप्यवृत्तित्वम् कार्यत्वस्य प्रयोजकम् इदमव्याहतम् वर्तमा सर्वव्याप्यम् व्यवस्थितम् व्याप्यम् तदनु तदनिरुद्धत्वम् अवतीर्णम् इदम् आज्ञामःत्तत्त्वस्वान्तराभाति सर्वदा निर्विघ्नपरिपूर्णत्वा कार्यवृत्तादि